खंडम, खंडम अध्यायम कोकिला गर्गसंहिताखण्डं तु वृन्दावनखण्डम् अध्यायम् वन् कृष्णातीरे कोकिलाकेलिकीरे गुञ्जापुञ्जे देवपुष्पादिकुञ्जे कम्बुग्रीवौ क्षिप्तबाहूचलन्तौ राधाकृष्णौ मङ्गलं मे भवेदाम् अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया चक्षुरुन्मीलितं येन तस्मै गुरवे नमः श्रीनारद उवाच ये गद्रोपद्रवं वीक्ष्य नन्दो नन्दान् सहायतान् वृषभाूप नन्ताश्च वृषभानुवरांस्तथा समाहूय परान् वृद्धान् सभायां तानुवाचः नन्द उवाच किं कर्तव्यं तु वदतोत्पादाः श्री नारद उवाच तेषां श्रुत्वाध सन्नन्दो गोपो वृद्धोदिमन्त्रविद अङ्गे नीत्वा रामकृष्णौ नन्दराजमुवाचः सनन्द उवाच उद्धातव्यमिदोऽस्माभिः सर्वैः परिकरैः सह गन्तव्यं चान्यदेशेषु यत्रोत्पादानसन्धिः बालस्ते कृष्णो जीवनं ब्रजवासिनां व्रजे धनं कुले दीपो मोहनो बाललीलया हाभ्या शकटेनापि ऋणा वरुदेन बालकः मुक्तोऽयं द्रुमपादेन ह्युत्पादं किमतः परं तस्माद् वृन्दावनं सर्वै गन्तव्यं बालकैः सह उत्पादेषु व्यदितेषु पुनरागमनं कुरु नन्द उवाच तधिक्रोश्यैर्विस्तृतं तद्वनं बृन्दावनं ब्रहाद तल्लक्षणं तत्सुखं च वदबुद्धिमदां वरा स नन्द उवाच प्रागुदीत्यां बर्हिषदो दक्षिणस्यां यदोः पुराद पश्चिमायां शोणितपुरान् माधुरं विदुहु। विदुः विंशद्योजनविस्तीर्णं सार्धं यद्योजनेन वै माधुरं मण्डलं दिव्यं व्रजमाहुर्मनीषिणः मधुरायां शौरिगृहे गर्गाचार्यमुखाच्रुदम् माधुरं मण्डलं दिव्यं तीर्थराजेन पूजितं वनेभ्यस्तत्र सर्वेभ्यो वनं वृन्दावनं वरं परिपूर्णतमस्यापि लीलाक्रीडं मनोहरं वैकुण्ठान्ना परो लोको न भूतो न भविष्यदि एकं वृन्दावनं नाम वैकुण्ठा च परम् यत्र गोवर्धनो नाम गिरिराजो विराजते कालिन्दीनिकटे यत्र पुलिनं मङ्गलायनं बृहत्सानुर्गिरिर्यत्र यत्र नन्दीश्वरो गिरिः क्रोशानां च चतुर्विंशद्विस्तृतैः काननैर्हृतं पश्यव्यं गोपगोपीनां गवां सेव्यं मनोहरम् लता कुञ्जावृतं तद्वै वनं वृन्दावनं स्मृतं नन्द उवाच कदा व्रजोऽयं सन्नन्दतीर्थराजेन पूजितः यदद्वेदितुमिच्छामि परं कौतूहलं हि मे सन्नन्द उवाच शङ्कासुरोमहा दैत्यपुरा नैमिति के लये स्वपदो ब्रह्मणसोऽपि वेददृग्दैत्यपुङ्गवः जित्वा देवान् ब्रह्मलोगा धृत्वा वेदान् गतोऽर्नवे गदेषु तेषु वेदेषु देवानां च गदं बलं पदा साक्षाद्धरिपूर्णो धृत्वा मास्यं वपुः पुरं नैमित्तिकलयाम्भोद्धौ युयुधे तेन यज्ञराड शूलं चिक्षेपहरये शङ्घो दैत्यो महाबलः स्वचक्रेण हरिसाक्षात् तच्छूलं शदधाकरोत् हरिं तदाडशिरः सा शङ्खो विष्णुमुरस्थले तस्य मूर्धप्रहारेण न च चा चालपरात्परः तदागदाम् समादाय मत्स्यरूपधरोहरिः पृष्ठे जखानं दैत्यं शङ्खरूपं महाबलम् गदाप्रहारव्यधिथ किञ्चिद्व्याकुलमानसः पुनरुद्धाय सर्वेषं मुष्टिना सतताडः तदा विष्णुस्वचक्रेण सशृङ्गं तच्छिरो जहारकुपितः साक्षाद्भगवान् कमलेक्षणः जित्वा शङ्खम् देववरैः सार्धम् विष्णुर्व्रजेश्वर प्रयागमेत्य स हरिर्वेदान्तान् ब्रह्मणे ददौ यज्ञम् चकारविधिवत् सर्वदेवगणैः सह प्रयागम् च समाहूय तीर्थराजम् चकारः तत्साक्षा दक्षयवडकृदो लीलातपत्रवद मुनिभानुसुदे स्थोर्मि चामरैस्तं विरेजदुः तदैव सर्वतीर्थानि जम्बूद्वीपस्थितानि च नीत्वा बलिं समाजग्मुस्तीर्थराजाय धीमदे तीर्थराजं च सम्पूज्य नत्वा तीर्थानि सर्वदः स्वभामानि ययुर्नन्दहरौ देवैर्गदे सदि तदैव नारदप्राप्तो मुनीन्द्रकलहप्रियः सिंहासने भ्राजमानं तीर्थराजमुवाचः श्रीनारद उवाच तीर्थै प्रपूजितस्त्वं वै तीर्थराजमहातपः तुभ्यम् च सर्वतीर्थानि मुख्यानीह बलिम् ददुः व्रजाद्वृन्दावनादीनि नागतानीह ते पुरः तीर्थानाम् राजराजस्त्वम् प्रमत्तैस्तैस्तिरक्स्कृतः यदि प्रभाष्य तम् साक्षाद्गदे सत्तमे तीर्थराजस्तदा क्रुद्धो हरिलोकं जगामः नत्वा हरिं परिक्रम्य पुरस्थित्वा कृताञ्जलिः सर्वतीर्थै परिवृद्धश्रीनाथं प्राह तीर्थराट तीर्थराज उवाच हे देवदेवप्राप्तोऽहं तीर्थराजस्त्वया कृदः बलिम् ददुर्मे तीर्थानि मधुरामण्डलम् विना प्रमत्ता व्रजतीर्थैश्च तैरहम् तु तिरस्कृतः तस्मात्तुभ्यम् च कथितम् प्राप्तोऽहम् तव मन्दिरे श्रीभगवानुवाच धरायाम् सर्वतीर्थानाम् त्वम् कृतस्तीर्थराण्मया किन्दुस्वस्य गृहस्याभिन्न कुरुतो रात्वमेव हि किं त्वं मे मन्दिरं लिप्सुः मत्तवद्भाष्यसेवचस तीर्थराजगृहं गच्छ शृणु वाक्यं शुभं च मे मधुरमण्डलं साक्षान् मन्दिरं मे परात्परं लोकत्रयात्परं दिव्यं प्रलये विन संहृदम् सन्नन्द उवाच इति श्रुत्वा तीर्थराजो विस्मितो भूद्गतस्मयः आगत्य नत्वा सम्पूज्य माधुरं व्रजमण्डलं तथप्रदक्षिणीकृत्य स्वधामगतवान् पुनः धरायामानभङ्गार्थं पूर्वमेतत् प्रदर्शितं मया तवाग्रे कथितं किं नन्द उवाच धरायमानभङ्गार्धं केन पूर्वं प्रदर्सितं एतन्मे वद माधुरं व्रजमण्डलम् सन्नन्द उवाच आदौ वाराहकल्पेऽस्मिन् खरिर्वाराहरूपधृक रसातलसमुद्धृत्य गाम्बभौ दंष्ट्रया प्रभुः कच्छन्दं वारिवृन्देषु भगवन्तं रमेश्वरं दंष्ट्राग्रे शोभिता पृथ्वी प्राहदेवम् जनार्दनम् भरो वाच देवपुत्र स्थले त्वं वैस्थापना मे करिष्यसि जलपूर्णम् जगत् सर्वम् दृश्यते वदहे प्रभो वाराह उवाच यदा वृक्षा प्रदृष्टा हि भवन्त्युद्वे गदा जले तदा ते स्थावना भूयात् पश्यन्ती गच्छ भूरुहान् दरो वाच स्थावराणाम् दुरचना ममोपरिसमास्थिता अन्यास्ति किं वा धरणि त्वहं हि धारणामयी सन्नन्द उवाच वदन्तीथम् ददर्शाग्रे जले वृक्षान् मनोहरान् वीक्ष्य पृथ्वी हरिम्प्राह सर्वतो विगदस्मया धरोवाच देव कस्मिं स्थले वृक्षाः सन्धिह्ये देशपल्लवाः इदं मनसि मे चित्रं वद यज्ञपदे प्रभो वाराह उवाच माधुरं मण्डलं दिव्यं दृश्यते अग्रे निदम्बिनि भोलोकभूमिसंयुक्तं प्रलयेऽपि न संहृदम् सन्नन्त उवाच तच्छ्रुत्वा विस्मिता पृथ्वी गतमाना बभुवः तस्मान्नन्तमहाबाहो व्रजोऽयं सर्वतोधिकः श्रुत्वेदं व्रजमहात्म्यम् जीवन्मुक्तो भवेन्नरः तीर्थराजात्परं विद्धि माधुरं व्रजमण्डलम् इति श्रीगर्गसंहितायां वृन्दावनखण्डे नारद बहुलाश्वसंवादे वृन्दावन आगमनोद्योगवर्णनं नाम प्रथमोऽध्यायः ओ अध्यायम् तु नन्द उवाच हे सन्नन्दमहाप्राज्ञ सर्वज्ञोऽसि बहुश्रुतः व्रजमण्डलमाहात्म्यं वदतस्ते मुखाच्छ्रुतम् गिरिर्गोवर्धनो नाम तस्योत्पत्तिं च मे वद कस्मादेनं गिरिवरं गिरिराजं वदन्ति हि यमुनेयं नदी साक्षात् कस्मात् श्लोकात् समागताः तन्माहात्म्यं च वद मे त्वमसि वरः सन्नन्द उवाजा एकदाहस्तिनपुरे भीष्मम् धर्मभृदां वरं पप्रच्छपाण्डुरिद्धं तं जनानां चानुशृण्वताम् परिपूर्णतमः साक्षाश्रीकृष्णो भगवान् स्वयम् असङ्घ्यब्रह्माण्डपदि गोलोकाधिपदि भुवो भारावताराय गच्छन् देवो जनार्दनः राधां प्राहप्रिये भिरुगच्छ त्वमपि भूतले राधोवाच यत्र वृन्दावनम् नास्ति नयत्रयमुना नदी यत्र गोवर्धनो नास्ति तत्र मेन मनःसुखं सन्नन्द उवाच वेदनागक्रोशभूमिं स्वधाम्न श्रीहरि स्वयम् गोवर्धनं च यमुनां चात्र समागदा वेदनागक्रोशभूमिसापि चात्रसमागता चतुर्विंशद्वनैर्युक्ता सर्वलोकैश्च वन्दिता भारतात् पश्चिमदिशि शाल्मलिद्वीपमध्यतः गोवर्धनो जन्म लेभे पत्न्यां द्रोणाचलस्य च गोवर्धनोपरिसुरा पुष्पवर्षम् प्रचक्रिरे हिमालय सुमेर्वाद्या शैला सर्वे समाददास नत्वा प्रदक्षिणीकृत्य पूजां कृत्वा विधानदः गोवर्धनस्य परमां स्तुतिं चक्रोर्महाद्रयः शैला ऊचुः त्वं साक्षात्कृष्णचन्द्रस्य परिपूर्णतमस्य च गोलोके गोगणैर्युक्ते गोपी गोपालसंयुते त्वं हि गोवर्धनो नाम वृन्दारण्ये विराजस्ये त्वन्नो गिरीणां सर्वेषां गिरिराजोऽसि साम्प्रतं नमो वृन्दावनाङ्कायतुभ्यं गोलोकमौलिने पूर्णब्रह्मातपत्राय नमो गोवर्धनाय च सन्नन्द उवाच युधिस्तुत्वादगिरयो जग्मुत्स्वं स्वम् गृहम् ततः शैलोगिरिवरसाक्षात् गिरिराज इति स्मृतः एकदा तीर्थयायी च पुरस्त्यो मुनिसत्तमः द्रोणाचलसुदं श्यामम् गिरिम् गोवर्धनम् वरम् माधवीलधिका पुष्पं पलभारसमन्वितं निर्चरैर्णादिदं शान्तं पन्दरा मङ्गलायनम् तपोयोग्यं रत्नमयं शतशृङ्गं मनोहरं चित्रधातुविचित्राङ्गं सटङ्गं पक्षिसङ्कुलं मृगै शाखामृगैर्व्याप्त मयूरध्वनिमण्डितम् मुक्तिप्रदं मुमुक्षु मुमुक्षूणां तं ददर्श महामुनिः तल्लिप्सुर्मुनिशर्दूलोद्रोणपार्श्वं समागतः पूजितोद्रोणगिरिणा पुलस्थ्यः प्राहतं गिरिं पुलस्थ्य उवाच हे द्रोणत्वं गिरीन्द्रोऽसि सर्वदेवैश्य पूजितः दिव्यौषधिसमायुक्तसदा जीवनदो नृणाम् अर्थीतवान्तिके प्राप्तकाशी स्तोहं महामुनिः गोवर्धनं सुधं देहि नान्यैर्मेत्रप्रयोजनं विश्वेश्वरस्य देवस्य काशी नाम्ना महापुरी यत्र पापी यत्र गङ्गागदा साक्षाद्विश्वनाथोऽपि यत्र वै तत्रैव स्थापयिष्यामि जातोऽयं मे मनोरथः सन्नन्द उवाच पुलस्य वचनम् श्रुत्वा स्वसुतस्नेहविह्वलः अश्रुपूर्णो द्रोणगिरिस्तम् मुनिं द्रोण उवाच पुत्रस्नेहाकुलोहं वैपुत्रो मेयमधिप्रियः ते शापभयभीदोहं वदाम्येन महामुने। हे पुत्रगच्छ मुनिना भारते कर्मके शुभे त्रैवर्ग्यं लभ्यते यत्र नृभिर्मोक्षमभिक्षणाद गोवर्धन उवाच मुने कथम् माम् नयसि लम्बिदम् योजनाष्टकम् योजनद्वयमुच्चाङ्गम् पञ्चयोजन विस्तृतम् कुलस्य उवाच उपविश्य करे मे त्वम् गच्छ पुत्र यथा सुखम् वाहयामि करे वै अवत्काशीम् समागतः गोवर्धन उवाच मुने यत्र स्थले भूम्याम् स्थापनाम् करिष्यसि करिष्यामि चोद्धानं तद्भूम्या शपद्धो मम तुलस्य उवाच अहमा शाल्मलिद्वीपान् मर्यादीकृत्य कौसलं नस्तावनं करिष्यामि शपतस्तेऽपि मेपथि सन्नन्द उवाच मुनेकरतले तस्मिन्नारुरोहमहाचलः प्रणम्यपि दरम् द्रोणमश्रुपूर्णाकुलेक्षणः मुनिस्तम् दक्षिणतरे धृत्वा गच्छन् शनैः शनैः स्वतेजोदर्शयन् नृणाम् प्राप्तो भूद्व्रजमण्डले जातिस्मरो गिरिस्तत्र प्राहेदम् पथि चिन्तयन् भगवान् स्वयम् अखण्डब्रह्माण्डपदिर्व्रजे तावतरिष्यति बाललीलां च कैशोरीं चेष्ठां गोपालबालकैः दानलीलामानलीलां हरिरत्र करिष्यति तस्मान्मया न गन्तव्यं भूमिश्चेयं गोलोका ्राधया सार्धम् श्रीकृष्णोऽत्रागमिष्यति कृदकृत्यो भविष्यामि कृत्वा तद्दर्शनम् परं एवम् विचार्य मनसा भूरिभारम् ददौ करे तदा मुनिश्च श्रान्तो भूद्भूतपूर्वम् गतस्मृतिः परादुत्तार्य तम् निधाय व्रजमण्डले लघु शङ्काजयार्थं हि गतो भू भारपीडितः कृत्वा शैचं जले स्नात्वा पुलस्त्यो मुनिसप्तमः उत्तिष्ठति मुनिप्राह गिरिं गोवर्धनं परं नोद्धितं भूरिभाराढ्यं पराभ्यां तं महामुनिः स्वतेजसा बलेनापि गृहीतुमुपचक्रमे मुनिना सङ्गृहीतोऽपि गिरिराजो गिरार्द्रया न चालाङ्गुलिं किञ्चित्तदभिद्रोणनन्दनः सन्नन्द उवाच गच्छ गच्छ गिरिश्रेष्ठभारं मा कुरु मा कुरु मया ज्ञातोऽसि रुष्टस्त्वमभिप्रायं वदाशु मे गोवर्धन उवाच मुनेत्र मेण दोषोऽस्ति त्वया करिष्यामि न चोद्धानं पूर्वं मे शपथकृतः शपथकृतः सन्नन्द उवाच पुलस्यो मुनिशार्दूलक्रोधात् प्रचलितेन्द्रियः स्फुर दोष्ठो द्रोणपुत्रं शाव विगतोद्यमः सन्नन्द उवाच गिरे त्वयादिदृष्टेन न कृतो मे मनोरथः तस्मात् तिलमात्रं हि नित्यं त्वं क्षीणतां व्रजा सन्नन्द उवाच काशीं गदे पुलस्त्यर्षावयं गोवर्धनो गिरिः नित्यं संक्षीयते नन्दतिलमात्रं दिने दिने यावद्भागीरथी गङ्गा यावद्गोवर्धनो गिरिः तावत् कले प्रभावस्तु भविष्यदि न करुषिचित गोवर्धनस्य प्रकटम् चरित्रम् नृणाम् महापापहरं पवित्रं मया तवाग्रे कथितम् विचित्रम् सुमुक्दिदम् कौ रुचिरम् न चित्रम् यदि श्रीगर्गसंहितायाम् वृन्दावनखण्डे नारदबहुलाश्वसंवादे गिरिराजोत्पत्तिकथनम् नाम द्वितीयोऽध्यायः ओ अध्यायम् त्रि सन्नन्द उवाच गोलोके हरिणाज्ञप्ता कालिन्दीसरिताम्बरा कृष्णम् प्रदक्षिणीकृत्य गन्तुमभ्युद्यता भवत तदैव विरजा साक्षात् गङ्गा ब्रह्मद्रवोद्भवा द्वे नद्यौ यमुनायाम् तु सम्प्रलीने बभूवधुः परिपूर्णतमाम् कृष्णाम् तस्मात् कृष्णस्य नन्दराड परिपूर्णतमस्यापि पट्टराज्ञीं विदुर्जनाः ततो वेगेन महदा कालिन्दीसरितां वरा बिभेदविरजा वी वेगं निगुञ्जद्वारनिर्गदा असङ्ख्यब्रह्माण्डचयं स्पृष्ट्वा ब्रह्मद्रवं गदा स्ववेगे बिन्दी तज्जलम् कुष्टनक स्ववेगेन महानदी श्री वामनस्य विवरे ब्रह्मद्रवसमाकुले तस्मिन् श्रीगङ्गया सार्धं प्रविष्टा भूत् सरिद्वरा वैकुण्ठं चाजिदपदं संप्राप्य ध्रुवमण्डले ब्रह्मलोकमभिव्याप्य पदन्ति ब्रह्ममण्डलात् तदसुराणां शदशो लोकाल्लोकं जगामः तदपपादवेगेन सुमेरुगिरिमूर्धनि कूडा नदिक्रम्य भित्वा गिरिकूडानक्रम्य भित्त्वा गण्डशिलातटान् सुमेरोर्दक्षिणदिशं गन्तुमभ्युदिदा भवद तत्र यमुना साक्षात् गंगायां विनिर्गता गङ्गादुः प्रयौ शैलं हिमवन्दं महानदी कृष्णादुप्रययौ शैलं कलिन्दं प्राप्य सा तदा कालिन्दीदि समाख्यादा कालिन्दप्रभवा यदा कलिन्दगिरिसानुूनां गण्डशैलतडान् दृढान् भित्त्वा लुडन्ती भूखण्डे कृष्णा वेगवती सदी दश्यान् पुनन्दी कालिन्दी प्राप्तवान् काण्डवे वने परिपूर्णतमम् साक्षात् श्रीकृष्णम् वदमिच्छति धृत्वा वक्पुः परम् तपस्तेपे कलिन्दजा पित्रा विनिर्मिते गेहे जलेद्यापि समाश्रिता वेगेन कालिन्दी प्राप्ता भूव्रजमण्डले वृन्दावनसमीपे च मधुरानिकटे सुधे श्रीमहावनपार्श्वे च सैकते रमणस्थले श्रीगोकुले च यमुना यूदी चंद्र रासार्थं निजवासं चकारः अधो व्रजाद्व्रजन्ती सा व्रजविक्षेपविह्वल प्रेमानन्ताश्रुसंयुक्ता भूत्वा पश्चिमवाहिनी तदस्त्रिवारं वेगेन नत्वाधो व्रजमण्डले देशान् पुनन्दी प्रययौ प्रयागं तीर्थसत्तमम् पुनः श्रीगङ्गया सार्धं क्षीराब्धिं सा जगामः देवासु वर्षं पुष्पाणाम् चक्रोर्दिवि जयध्वनिम् कृष्णा श्रीयमुना साक्षात्कालिन्दी सरिताम् वरा समुद्रमेत्य श्रीगङ्गाम् प्राहगद्गदया गिरा यमुनो उवाच हे तु धन्यासि सर्वब्रह्माण्डपावनी कृष्णपादाब्जसम्भूता सर्वलोकैकवन्दिता ऊर्ध्वम् यामि हरेर्लोकम् गच्छ त्वमपि हे शुभे त्वत्समानम् हि दिव्यम् च न भूतम् न भविष्यदि गङ्गोवाच सर्वतीर्थमयी गङ्गा तस्मात् प्रणमाम्यहम् यत्किञ्चिद्वा प्रकथितं तत्क्षमः स्वसु मङ्गले हे तु धन्यासि सर्वब्रह्माण्डपावनी कृष्ण वा मांसम्भूता परमानन्दरूपिणी परिपूर्णतमा साक्षात् परिपूर्णतमस्यापि श्रीकृष्णस्य महात्मनः पट्टराज्ञीं परां कृष्णे कृष्णां त्वां प्रणमाम्यहं तीर्थैर्देवैर्दुर्लभ त्वं गोलोकोऽपि च दुर्घटा अहं पादालं श्रीकृष्णस्याज्ञया शुभा अहं यास्यामि पादालं श्रीकृष्णस्याज्ञया शुभे तद्वियोगातुराखं वैपानं कर्तुं न च यूधी भूत्वा भविष्यामि श्रीव्रजे रासमण्डले यत्किञ्चिन्मे प्रकथितं तत्क्षमस्वहरिप्रिये युद्धं परस्परं नत्वा द्वे नद्यौ ययदुर्धृतं लोकान् पवित्रीकुर्वन्ति पादाले स्वसरिद्गदा सापि भोगवतीनाम्ना बभौ भोगवतीवने यज्जलं सत्रि मूर्ध्ना बिभर्तिः अध कृष्णा स वेगेन भित्त्वा सप्ताग्धिं मण्डलं सप्तद्वीपमही पृष्ठे लुढन्ती वेगवत्तरा गत्वा स्वर्णमयीं भूमिं लोकालोकाचलं गदा तत्सानु गण्डशैलानां तडं भित्त्वा कलिन्दजा तन्मूर्ध्नि च पपाताशुस्पारवज्जलधारया उद्गच्छन्ति तदूर्ध्वं सा ययौ स्वर्गं तु नाकिनाम् आब्रह्मलोकं लोकां स्थानभिव्याप्य हरेः ब्रह्माण्ड रन्ध्रं श्रीब्रह्मद्रवयुक्तं समेत्य सा पुष्पवर्षं प्रवर्षत्सुदेवेषु प्रणतेषु च पुनः श्रीकृष्णगोलोकमारुरोहसरित्वरा कलिन्दगिरिनन्दिनी नवचरित्रमेतत् शुभं श्रुतं च यदि पाठितं भुवि तनोदिसन्मङ्गलम् जनोऽपि यदि धारयेत् किल पठेत् च यो नित्यशः स यादि परमं पदं निज निकुञ्जलीरावृतं यदि श्रीगर्गसंहितायां वृन्दावनखण्डे नन्द सन्नन्दसंवादे कालिन्द्यागमनवर्णनं नाम तृतीयोऽध्यायः ओम् अध्यायम् फो सन्नन्दस्य वच श्रुत्वा गन्तुं नन्दः समुद्यतः सर्वैर्गोपगणैः सार्धम् मुदिदोऽभून् महामनाहा महामनाः यशोदया च रोहिण्या सर्वगोपीगणैः सह अश्वैरथैर्वीरजनैर्मण्डितो विप्रमण्डलैः गोभिश्च शकदैर्युक्तो वृद्धैर्बालैस्तथानुगैः गायकैर्गीयमानश्च शङ्खदुन्दुभिनिस्वनैः पुत्राभ्याम् रामकृष्णाभ्याम् नन्दराजो महामदिः रथमारुह्य खे राजन्वनम् वृन्दावनम् ययौ वृषभानुवरो गोपो गजमारुह्य भार्यया अङ्गे नीत्वा सुदाम् राधाम् गीयमानाश्च गायकैः मृदङ्गतालवीणानाम् वेणूनाम् गोपाल गोपालगोगणैः सार्धम् वृन्दारण्यम् जगमः उपनन्दास्तथानन्दास्तधा षड्वृषभानवः सर्वै परिकरैः सार्धम् जग्मोर्वृन्दावनम् वनम् वृन्दावने सम्प्रविश्य गोपा सर्वे सहानुगाः कोषान्विधाय वसतीर्वासं चक्रुरितस्ततः सभा मण्डपसंयुक्तं सदुर्गं परिखायुगं चतुर्योजनविस्तीर्णं सप्तद्वारसमन्वितम् सरोवरैपरिवृदं राजमार्गं मनोहरं सहस्रकुञ्जं च पुरं वृषभानुरची कृपद श्रीकृष्णो नन्दनगरे वृषभानुपुरेर्भकैः चचारक्रीडनपरो गोपीनां प्रीदिमावहन् अधवृन्दावने राजन् सर्वगोपालसम्मतौ बभूव दुर्वत्सपालौ रामकृष्णौ मनोहरौ चारयामासदुर्वत्सान् ग्रामसीं न्यर्भकैः सह निकडे पुण्ये पुलीने रामकेशवौ निकुञ्जेषु च कुञ्जेषु सम्प्रलीना वितस्ततः लिङ्गमाणौ च कुत्रापि नन्दं तौ च रतुर्वने किङ्गिणीजालसंयुक्तौ नी सिञ्चन्मञ्जीरनूपुरौ नीलपीताम्बरधरौ हरगेयूरभूषितौ क्षेपणैः क्षिपतौ बालैर्वंशीवादनतत्परौ मुखेन किङ्गिणी शब्दं कुर्वद्भिर्बालकैश्च तौ धावौ पक्षिभिश्चायां रजदूरामकेशवौ मयूरपक्षसंयुक्तौ पुष्पपल्लवभूषितौ ये कदा वत्सवृन्देषु प्राप्तं वत्सुरं नृप हंसप्रणोदितम् ज्ञात्वा शनैस्तत्र जगामः धावन् गोपेषु सर्वत्र लाङ्गुलम् चालयन्मुहुः दैत्यपश्चिमपादाभ्याम् हरिमंसे तदाडः पलायितेषु बालेषु कृष्णस्तम्पादयोर्द्वयोः गृहीत्वा भ्रामयित्वाश्च पादयामास भूतले पुनर्नीत्वा कदाभ्यां तं कपिद्धे प्राहिणोद्हरिः तदा मृत्युं गदे दैत्ये कपिद्धोऽपि महाद्रुमः कपिद्धान् पादयामास तदद्भुतमिवा भवत विस्मितेषु जबालेषु साधुसाध्विदिवादिषु दिविदेवाजयराहैः पुष्पवर्षम् प्रचक्रिरे तद्दैत्यस्य महर्ज्योतिकृष्णे लीनम् बभूवः श्रीबहुलाश्व उवाच अहो पूर्वम् सुकृतकृत्कोऽयं वत्सासुरो मुने श्रीकृष्णे दीनदां प्राप्तश्रीप्रपूर्णे परात्परे नारद उवाच मुरुपुत्रो <laughs> महादैत्यप्रमीलो नाम देवजित वसिष्ठस्याश्रमे प्राप्तो नन्दिनीं गां ददर्शः तल्लिप्सुर्ब्राह्मणो भूत्वा ययाचे गां मनोहरां तूष्णीं स्थिदे गौरुवाचवसिष्ठे दिव्यदर्शने नन्दिनी भूत्वा विप्रसमागतः दैत्योऽसि मुरुजस्तस्माद् भवदुर्मदे श्रीनारद उवाच तदैव वत्सरूपो भून्मुरुपुत्रो महासुरः वसिष्ठम् गाम् परिक्रम्य नत्वात्राहीत्युवाचः गौरुवाच द्वापरान्दे महादैत्यवृन्दारण्ये यदा तव गोवत्सेषु गदस्यापि तदा मुक्तिर्भविष्यति श्रीनारद उवाच परिपूर्णतमे साक्षात् श्रीकृष्णे पतितपावने तस्मात् वत्सासुरो दैत्यो लीनोऽभूत् न विस्मयह विस्मयः इति श्रीगर्गसंहितायाम् वृन्दावनखण्डे मोक्षो नाम चतुर्धोऽध्यायः ओ अध्यायम् फैव् एकदाचारयन् वत्सान् सरामो बालकैर्हरिः यमुना निकटे प्राप्तम् बगम् दैत्यं ददर्शः श्वेद श्वेतपर्वतसङ्काशो बृहत्पादो कनध्वनिः पलायितेषु बालेषु वज्रतुण्डोऽग्रसद्धरिम् रुदन्तो बालका सर्वे गदप्राणा इवाभवन् हाहाकारम् तदा कृत्वा देवा सर्वे समागताः इन्द्रो वज्रम् तदानी तम् महाबलं तेन पादेन पदितो न ममारसमुद्धितः ब्रह्मा विब्रह्मदण्डेन तं तदाडमःबकम् तेन खादेन पदिदो मूर्चिदो खटिकाद्वयम् विद्धुन्वन्स्वतनुं वेपातृम्भितः पुनरुद्धितः न ममारतदा दैत्यो जगर्जकनवद्बली त्रिलोचनस्त्रिशूलेन तम् जका न महासुरम् चिन्नैकपक्षो दैत्योऽपि न मृतोदिभयङ्करः वायव्यास्त्रेण वायुस्तम् सम् जखानभगामतः उच्चालभगस्तेन पुनस्तत्र स्थितो भवद यमस्तं यमदण्डेन ताडयामास चाग्रदः तेन दण्डेन न बको वै चण्डविक्रमः दण्डोऽपि भग्नताम् प्रागात् सक्षदो नाभवद् बकः तदैव चाग्रदप्राप्तश्चण्डांशिश्चण्डविक्रमः शदबाणैर्भगं दैत्यं सं जखानधनुर्धरः तीक्ष्णैः पक्षगदैर्बाणैर्नममारभगस्ततः धनदस्थं च खड्गेन सुतीक्ष्णेन जखानः चिन्नद्वदीयपक्षो भूतन मृत्यो दैत्यपुङ्गवः नीकारास्त्रेण तम् सोमः सञ्जखानमहाबकम् शीतार्थो दैत्यो न पुनरुद्धितः आग्नेयास्त्रेण तम् ह्यग्निः सन्तताडमहाबकम् भस्मरो मा भवदैत्यो नम रमः फलः अपाम्पदिस्तम्पाशेन बद्ध्वा कौ विचकर्षः कर्षणात्समः पापचिन्नो भूदन्न मृतश्च वै तथाडगदया तं वै भद्रकाली तरस्विनी मूर्च्छितस्तत्प्रकारेण परं कस्मदतां ययौ क्षतमूर्ध्वा समुद्धाय विधुन्वन् पुनः जगर्जखनवद्वीरो दैत्यो महाकलः तदा शक्तिधरशक्तिं तस्मै चिक्षेप सत्वरः तयैकपादो भग्नो भून् मृद्धः पक्षिणां वरः तदा क्रोधेन सखसाधावन् दैत्यस्तडित्स्वनः देवान् विद्रावयामास स्वच्वा तीक्ष्णतुण्डया अग्रे पलायितान् देवानन्व धावत् बकोऽम्बरे पुनस्तत्र गदो दैत्यो नादयन्मण्डलं दिशाम् सदा देवर्षय सर्वे सर्वे ब्रह्मर्षयो द्विजः श्रीनन्दनन्दायाशु सफलाम् चाशिषम् ददुः तदैव कृष्णस्तन्मध्ये तदैव कृष्णस्तन्मध्ये तदा न वपुरुज्ज्वलम् चच्छर्दकृष्णम् सहसा क्षदकंठो। महाबकः पुनः कृष्णम् समाहर्तुम् तीक्ष्णया तुण्डया गदम् पुच्छे गृहीत्वा तम् कृष्ण प्रोधयामास भूतले पुनरुद्धायतुण्डम् स्वम् प्रसार्यावस्थितम्बकम् ददारतुण्डे हस्ताभ्याम् कृष्णशाखाम् गजो यथा तदा मृतस्य दयितस्य ज्योधिकृष्णे समाविशत देवता ववृषुपुष्पैर् जयारा वै समन्विताः गोपाला विस्मिता सर्वे कृष्णम् संसृश्य सर्वतः ऊचिस्त्वम् कुशलीभूतो मुक्तो मृत्युमुखात् सखे एवं कृष्णो बकं हत्वा सबलो बालकैः सह गोवत्सैर्हर्षितो गायन्नाय यौ राजमन्दिरे परिपूर्णतमस्यास्य श्रीकृष्णस्य महात्मनः जगुर्गृहे गदाबाला श्रुत्वे तेदि विस्मिताः श्रीबहुलाश्व उवाच कोऽयम् दैत्यपूर्वकाले कस्मात् केन भक्को भवत पूर्णब्रह्मणि सर्वेश्वे श्रीकृष्णे लीनदां गतः श्रीनारद उवाच हयग्रीवसुधो दैत्य उत्कलो नाम के नृप रणे मरान्विनिर्जित्य शक्रच्छत्रम् जग्गारः तथा नृणाम् नृपाणाम् च राज्यम् हृत्वा महाबलः चकार चकारवर्षाणि शतम् राज्यम् सर्वविभूतिमद ये कदा विजरन्दैत्यसिन्धुसागरसङ्गमे जा जले मुनिसिद्धस्य पर्णशाला समीपतः जले निक्षिप्य बडिशम्मीनाकर्षयन्मुहुः निषेधितोऽपि मुनिना ना मन्यत स दुर्मदिः तस्मै शापं ददौ सिद्धो जाजलिर्मुनिसत्तमः भगवत्त्वं चशानत्सि त्वम् भगो भवदुर्म तत्क्षणाद्भरूपो भूद्भ्रष्टते जागतस्मयः पदिधपादयोस्तस्य नत्वा प्राहकृदाञ्जलिः उत्कल उवाच न जानेते तपश्चण्डं मुने मां पाहि जाजले साधुनां भवदां सङ्गं मोक्षद्वारं परं विदुः मित्रे शत्रौ समानेपमाने हेमलोष्ठयोः सुखे दुःखसमये वै दृश्या साधवश्च ते किं किं न जातं दर्शनात् कौ मुने नृणाम् पारमेष्ट्यम् च साम्राज्यमैन्द्रयोगपदम् लभेद जाजले मुनिशार्दूलत्रैवर्ग्यम् किमभूज्जनैः साधूनाम् कृपया साक्षात् पूर्णम् ब्रह्मापि लभ्यते श्री नारद उवाच तदा प्रसन्न प्रसन्नः समुनिर्जाजलिस्तमुवाचः वर्षष्टिसहस्राणि तपस्तप्तम् च येन वै वैवस्वतान्तरे प्राप्ते ष्यष्टाविंशदिमे युगे द्वापरान्ते भारतेऽपि माधुरे व्रजमण्डले परिपूर्णतमसाक्षात् श्रीकृष्णो भगवान् स्वयम् वृन्दावने गवाम्बत्सञ्चारयन् विचरिष्यति तदा तन्मयताम् कृष्णे यास्यसि त्वम् न संशयः हिरण्याक्षादयो दैत्या वैरेणापि परम् गदाः युद्धं बकात्सुरो दैत्य उत्कलो जाजलेर्वराध श्रीकृष्णे लीनदां प्राप्त सत्सङ्गात् किं न जायते इति श्रीगर्गसंहितायाम् वृन्दावनखण्डे बकासुरमोक्षो नाम पञ्चमोऽध्यायः ओम् अध्यायम् सिक्स् एकदा बालकैः सागम् गोवत्सांश्चारयन् हरिः कालिन्दीनिकटे रम्ये बालक्रीडां चकारः अखासुरो नाम महान् दैत्यस्तत्र स्थितो भवद क्रोशदीर्घं वभु कृत्वा प्रसार्य मुखमण्डलं दूराद्यं पर्वताकारम् वीक्ष्य वृन्दावने वने, वने। गोपाजमुर्मुखे तस्य वत्सायि कृत्वाञ्जलिन् तद्रक्षार्थम् च सबलस्तन्मुखे प्राविशधरिः निगीर्णेषु सवत्सेषु बालेषु त्वहिरूपिणा शब्दो हा शब्दोद्भूत् सुराणाम् तु दैत्यानाम् हर्ष एव कृष्णो वपुस्वं वैराजं तदा नाखो दरेतदः तस्य संरोधगाः प्राणा शिरो भित्वा विनिर्गदाः तन्मुखान्निर्गतकृष्णो बालायैर्वत्सैश्च मैथिल स वत्सकांशिषून् दृष्ट्वा जीवयाम समाधवः तद्यो दिशिख्र नश्यामे लीनं जातं तडिद्यधा तदैव ववृषुर्देवा पुष्पवर्षाणि पार्थिव एवम् श्रुत्वा मुनेर्वाक्यम् मैथिलो वाक्यमब्रवीद कोऽयं दैत्यपूर्वकाले श्रीकृष्णे लीनदां गदः अहो वैरानुबन्धेन शीघ्रं दैत्यो हरिं गदः श्रीनारद उवाच शङ्खासुरसुदोराजन् अखो नाम महाबलः युवादिसुन्दरः कामदेव इवापरः अष्टावक्र मुनिं विरूपं मलयाचले दृष्ट्वा जहासतमख कुरूपोयमिति ब्रूवन् तं शशापमः दुष्टं त्वं सर्पो भवदुर्मदे कुरुपो भूमि भूमिमण्डले तत्पादयोर्निपतितं दैत्यम् दीनं गदस्मयम् दृष्ट्वा प्रसन्नः समुनिर्वरं तस्मै दद्धौ पुनः अष्टावक्र उवाच कोडिकन्दर्पलावण्य श्रीकृष्णस्तु तवोदरे यदा गच्छेत् सर्परूपा तदा मुक्तिर्भविष्यति श्रीनारद उवाच अष्टावक्रस्य शापेन सर्पो भूत्वा ह्यखः सुरः तद्वरात् परमं मोक्षं गदो देवैश्च दुर्लभं वत्सात् भगमुखान्मुक्तं तदो मुक्दं ह्यखः सुरा, सुराद श्रुत्वा कदिनयकृष्णं यशोदा भूद्भयातुरा कलावधिं रोहिणीं च गोपी गोपान् वयोधिकान् वृषभानुवरं गोपं नन्दराज्यं व्रजेश्वरं नभोपनन्दान्नन्दाश्च वृषभान् प्रजेश्वरान् समाहूय तदग्रे च वजप्राह यशोमदीं यशोदा च किम् करोमि क्व गच्छामि कल्याणम् मे कथम् भवेद मत्सुदे बकवोरिष्ठ आगच्छन्ति क्षणे क्षणे पूर्वम् महावनम् त्यक्त्वा विन्दारण्ये गदा वयम् क्व यास्यामो देशे वददनिर्भये चञ्चलोऽयम् बालको मे क्रीडन् दूरे प्रयादिः बालकांश्चञ्चल सर्वे न मन्यन्ते वचो मम बकासुरश्च मे बालम् तीक्ष्ण तुण्डोऽग्रसद्बली तस्मान् मुक्दन्तु जग्राहार्भकैर्दीनमकासुरः वत्सासुरस्तज्जिखां सुसोभि दैवेन मारितः वत्सार्थम् स्वबृहाद्बालम् न बहिः कारयाम्यहम् श्रीनारद उवाच युद्धम् वदन्तीम् सददम् रुदन्तीम् यशोमदीम् वीक्ष्य जगादनन्दः आश्वासयामासस्गर्व वाक्यैः धर्मार्थविद्धर्मभृताम् वरिष्ठः नन्दराज उवाच गर्गवाक्यम् त्वया सर्वम् विस्मृतम् हे यशोमधि ब्राह्मणानां वचः सत्यं नासत्यम् भवति तस्मादानं तस्माद्दानम् सर्वारिष्ट निवारणं दानात् परम् तु कल्याणं न भूतं न भविष्यति श्रीनारद उवाच यदा यशोदा विप्रेभ्यो नवरत्नम् महाधनम् स्वालङ्कारांश्च बालस्य सबलस्य ददौ नृप अयुधम् वृषभानां च भवां लक्षम् मनोहरम् द्विलक्षमन्नभाराणां नन्दोदानम् ददौ श्री इति श्रीगर्गसंहितायाम् वृन्दावनखण्डेर् अखासुरमोक्षो नाम षष्ठोऽध्यायः ओम् अध्यायम् सेवन् ब्रह्मणा कृतम् वत्सवत्सपालहरणम् अधान्यतृणुराजेन्द्रश्रीकृष्णस्य महात्मनः कौमारे क्रीडनश्चेदम्पौ गण्ठे कीर्तनम् यथा श्रीकृष्णोखमुखान् मृत्यो रक्षित्वा वत्सवत्सपान् यमुनाफुलिनम् गत्वा प्राहेदम् हर्षवर्धनम् तिरम्यं पुलिनं प्रियं कोमलवालुकं शरत्प्रभुल्ल परागैः परिपूजितम् वायुना त्रिविधाख्येन सुगन्धेन सुगन्धितं मधुपध्वनि संयुक्तं कुञ्जद्रुमलदाकुलम् अत्रोपविश्यगोपाला दिनैकप्रहरे गदे भोजनस्यापि समयम् तस्मात् कुरुत भोजनम् अत्र भोजनयोग्या भूर्दृश्यते मृदुवालुका वत्सका सलिलम् पीत्वा ते चरिष्यन्ति चाद्वलम् यदि कृष्णवच श्रुत्वा तथेत्याहुश्च बालकाः प्रकर्तुं भोजनं सर्वे ह्युपविष्टा सरितटे अथ केचित् बालकाश्च येषां तेदु न भोजनं ते तु कृष्णस्य कर्णान्ते जगद्दुर्दिनया गिरा वयं तु किं करिष्यामोऽस्मत्पार्श्वे नदु भोजनं नन्दग्रामान् दुदूरं हि गच्छामो वत्सकैर्वयम् इति श्रुत्वा हरिप्राहमाशोकम् कुरुत प्रियाः अहम् दास्यामि सर्वेषाम् प्रयत्नेनापि भोजनम् तस्मान् मद्वाक्यनिरता सर्वे भवद बालकाः इति कृष्णस्य वचनात् कृष्णपार्श्वे च दे मुक्त्वा शिक्यानि सर्वेऽण्ये बुभुजु कृष्णसंयुताः चकारकृष्णकिलराजमण्डलीम् गोपालबालैपुरदप्रपूरितैः अनेकवर्णैर्वसनै प्रकल्पितैर्मध्ये स्थितो पीतपडेन भूषितम् रेजेतदसोवरगोपदारकैर्यधामरेशो ह्यमरैश्च वैदेह सुवर्णकर्णिका कुसुमैरङ्गुरैकेजित्पल्लवैश्चदलैफलैः कृष्णस्तु कवलम् भुक्त्वा सर्वान् पश्यन्निदम् जगौ अन्यान्नि दर्शयन् स्वाधुनाकं जानामि वै सखे तदेत्युक्त्वा स बालश्च नीत्वा अन्यान् कवलान् ददौ भुक्त्वादेकदयामासु प्रखसन्धपरस्परम् पुनस्तत्रापि सुबलो हरयेत् कवलम् ददौ कृष्णस्तु कवलम् किञ्चित् भुक्त्वा तत्र जखा ये भुक्द कवला बालास्ते सर्वे जह सुस्फुटम् यस्य मादामहामूढा शृणुनन्दकुमारक न ज्ञानं भोजने तस्य तस्मात् स्वादुन विद्यते तदो ददौ च कबलं अन्यान् सर्वान् बहुश्रेष्ठं जगु सर्वे व्रजार्भकाः पुनः कृष्णाय प्रददौ कबलं च वरूधवः अन्यान् बालान् तथा सर्वान् किञ्चित् प्रयत्नदः पुक्त्वादु जहसु सर्वे श्रीकृष्णाद्या व्रजार्भकाः बाला ऊजुः तादृशम् भोजनञ्चास्य यादृशं भुक्त्वात्युद्विग्नमनस सर्वे वयमद किल सर्वे दर्शयन्तः स्वभोजनम् हासयन्तो हसन्तश्च चक्रुक्रीडाम् परस्परम् जठरस्य पडे वेणुम् वेत्रम् शृङ्गश्च कक्षके वामे पाणौ च कबलम् शिरसा मुकुडम् बिभ्र कन्दे पीतपडम् तथा हृदयेवनमालाश्च कडौ काञ्चीम् तथैव च पादयोर्नूपुरौ बिभ्रच्छ्रीवत्सम् कौस्तुपम् हृदि तिष्ठन्मध्ये गोपगोष्ठ्याम् हासयन्नर्मभिस्वकैः स्वर्गे लोके जमिष्यदि बभुजे यज्ञभुघरीः एवम् कृष्णात्मनाथेषु भुञ्जे भुञ्जानेष्वर्भकेषु च विविशुर्गह्वरे दूरम् तृणलोभेन वत्सकः विलोक्यतान् भयत्रस्तान् गोपान् कृष्ण उवाचः यूयम् गच्छन्तुमहम् दुःख्यानेष्ये वत्सकानिह इत्युक्त्वा कृष्ण उद्धाय गृहीत्वा कवलं करे विचिकाय दरी कुञ्जगह्वरे वत्सकान् स्वकान् तदैव चाम्भोजभवत्समागतो विलोक्यमुक्तिम् ह्यखराक्षसस्य च ददर्श कृष्णम् मनसा यथा रुजिभुञ्जानमन्नम् व्रजबालकैः सह दृष्ट्वा च कृष्णम् मनस्सा स त्वयम् हि गोपोन्नहि देवदेवः हरिर्यदि स्याद् बहु कुत्सितान्ये पाद्धम् रतो वा व्रजगोपबालैः युत्युक्त्वा मोहितो ब्रह्म मायया परमात्मनः द्रष्टुम् मञ्जुमः त्वम् तु मनश्चक्रे ह्यहो नृप सर्वान् वत्सानि दो गोपान्नि त्वाख्येवस्थितः पुर अन्तर्दधे जो दृष्ट्वा सुरमोक्षणम् यदि श्रीगर्गसंहितायां वृन्दावनखण्डे वत्स वत्सपालहरणं नाम सप्तमोऽध्यायः ओम्